धर्म्यैर्धनागमैस्तस्यावृधे नि च यो महान् कर्तुं यस्य न शक्येत क्षयो वर्षशतैरपि स्वकोष्ठस्य परिमाणम् कोशस्य च महीपतिः विज्ञाय राजा कौन्तेयो यज्ञायैव मनोदधे सुहृदश्चैव ये सर्वे पृथक् च सह चाब्रुवन् यज्ञकालस्तव अथैवम् ब्रुवतामेव तेषामभ्याययौ हरिः वेदात्मा दृश्यश्चैव विजानताम् जगतस्तस्थुषाम् श्रेष्ठः प्रभवश्चाप्ययश्च भूतभव्यभवन्नाथः केशवः केशिसूदनः बलाधिकारे निक्षिप्या सम्यगानकदुन्दुभिम् उच्चावचमुपादाय धर्मराजाय माधवः धनौघम् पुरुषौ व्याघ्रो बलेन महताव्रतः तम् धनौघमपर्यन्तम् रत्नसागरमक्षयम् नादयन् रथघोषेण प्रविवेशपुरोत्तमम् पूरयम्स्तेषाम् द्विषच्छोगावहो भवत् असूर्यमिव सूर्येण निवातमिव वायुना कृष्णेन समुपेतेन जहृषे भारतम् पुरम् तम् मुदाभि समागम्य सत्कृत्य च यथाविधि स सुखासीनम् युधिष्ठिरः धौम्यद्वैपायनमुखैर्त्विग्भिः भी पुरुषर्षभ भीमार्जुनयमैश्चैव सहितः कृष्णमब्रवीत् युधिष्ठिर त्वत्कृते पृथिवी सर्वा मद्वशे कृष्णवर्तते वर्तते धनम् च बहु वाष्णेय सोऽहमिच्छामि तत्सर्वं विधिवद्देवकी सुता उपयोक्तुम् द्विजाग्रेभ्यो हव्यवाहे च माधव तदहं यष्टुमिच्छामि दाशार्हसहितस्त्वया अनुजैश्च महाबाहो तन्मानुज्ञातुमर्हसि तद्दीक्षापय गोविन्द त्वमात्मानम् महाभुज त्वयिष्टवति दाशार्ह विपाप्मा भविताह्यहम् माम् वाप्यभ्यनुजानीहि सहैभिरनुजैर्विभो